देवा देवः पुष्पवनेविलासरसिगरा किं हे मनाथारथग किंवागरतरेण किंवा सारधरेण भद्रवनिता गानेन सौ यद्वा वैश्यसुता करग्रहसुखादी वैश्यसुता करग्रहसुखादि नेष्टे निवृत्यै कुतः सः न्यः प्रणयी युवासमरसोऽपि अद्यापि नैवागता